मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं 25 फैव् पृथुचरितं श्रीगणेशाय नमः मुद्गल उवाच जनानां धर्ममार्गं सो सोऽशिक्षयन्नृपसत्तमः विष्णुरूपस्वयं साक्षाद्विष्णुतुल्यपराक्रमः संस्थितस्वपुरे राजा लोकान् संरञ्जयन् प्रभो तत्रा जग्मुश्च योगीन्द्रासनकाद्या विधे सुताः चत्वारसूर्यसङ्काशासदा बालवयोन्विताः पूर्वेषाम् पूर्वजामान्या गदभ्रान्तय एव ते तान् दृष्ट्वा सहसोद्धाय सम्भ्रमेण नरोत्तमः ननाम दण्डवद्भूमौ शिरः संस्थाप्य पादयोः उद्धायतान्महाभक्त्या पाद्यार्घ्यैर्विष्टरादिभिः अपूज यत्स विधिवत् पादसंवाहनं तेषां चकार स्वयमादराद उवाच मधुरं वाक्यं पृथुर्वाक्यविशारदः पृथुरुवाच धन्येयं धरणी त्वद्य धन्यं नगरमुत्तमं मन्दिरं सत्कृतं सर्वं भवदा मागमेन मे धन्यो वंशोकुलं धन्यं पितरौ ज्ञानमाश्रमः तपोविद्यादिकं मे च भवतां पाददर्शनाद सनाधोऽकं कृतो नाथो भवद्भिर्नात्र संशयः अनुग्रहकृतोऽत्यन्तं विशेषेण दयालुभिः पूर्वजन्मार्जितं मे किं फलिदं पुण्यमुत्तमम् अन्यथा दर्शनं न स्याद्भवतां ब्रह्मरूपिणां निःस्पृहा योगनिष्ठा ये सर्वज्ञास्वपरायणम् दृष्ट्वा कुर्वन्ति कार्यार्थमाज्ञां तस्य हिताय अद अत आज्ञा महाभागा मम कुर्वन्तु साम्प्रतम् तया कं कृतकृत्यश्च भवामिन च संशयः मुद्गल उवाच पृथोर्वचनमाकर्ण्यशनकाध्यास्तमब्रुवन् तृप्ता भावेन तस्याध योगीन्द्रा योगभाविताः सनकाद्याऊचुः धन्योऽसि नृपवर्यत्वं पृथो पृथुपराक्रम विनयं तेद्य दृष्ट्वा वै सन्तुष्टा वयमादराद नकार्य कार्यलिप्सया युक्ता वयं नग्नामः मदे दर्शनार्थं च देयादा साधो स्वर्गे श्रुतं यशः आज्ञां देहि गमिष्यामि ब्रह्मलोकं सनातनं कीर्तिश्रुत्वा तथा दृष्ट्वा तृप्ता हर्षसमन्विताः तेषां तद्वचनं श्रुत्वा पृधुस्तान्विनयान्वितः जगादभक्तिसंयुक्तो योगीन्द्रान्नृपसत्तमः पृथुरुवाच भुक्तं राज्यं महाभागा नानाभोगसमन्वितम् अधुना शान्तिसिद्ध्यर्थं योगं ब्रूद तपोधनाः पृथोर्वचनमत्यन्तं श्रुतं योगिभिरादराद पात्रं mm. दृष्ट्वा महाभागा ऊचुस्तं ब्रह्मशाश्वतम् सनकाद्याऊजुः धन्योऽसि नृपशार्दूला बुद्धिस्ते परमाद्भुदा निर्वेदं राज्य भोगेभ्यः सम्प्राप्ता पृथुलश्रवः योगशान्तिमयं पूर्णं गणेशं विद्धिभूमिप तम् भजत् स्वमहाभक्त्या तया शान्तिं गमिष्यसि स्म वयम् सर्वे सङ्गदाः शङ्करालयम् वडमूले समासीनमद्राक्ष्मध्यानसंस्थितम् तम् प्रणम्यस्थिदाः सर्वे वयम् विनयसंयुताः स्तोत्रैस्तम् बोधयन्तश्च ततः सर्वो बुबोध वै त्यक्त्वा ध्यानम् गणेशाय नम इत्यवद ततः श्रुत्वा भ्रान्त वयं तं स्म पृच्छामः संशयान्वितः क्वसौ गणाधिपस्वामिन् कथं नमसि प्रभो शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः अस्माकं वचनं श्रुत्वा शिवो हर्षसमन्वितः जगादज्ञानमाद्यं यद्गणपत्यं सुशान्दितम् शिव उवाच ब्रह्म यत् कथ्यते वेदाै कथं तत्र प्रवर्तते स्वाधीनं सहजं विप्राः पराधीनं त्रिधा भवेद कर्मयोगादिभेदेन वेदे वै वेदवादिभिः नानाविधं वर्णितं यद्ब्रह्म तन्माययान्विधम् कर्मणा संयोगो ब्रह्मी जायते तेनात्मक्रह्म तद्वना मत समूहवाची शब्द गणीय बाहैयांतरादिभेद संयोगे तो समूह अन्न प्राणादि का शब्द ब्रह्मणो वाच ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वरः संयोगयोगकाध्याये नाना योगामदा बुधैः योगानां योगरूपोऽयं गणेशो नात्र संशयः गणो योगात्मः प्रोक्तस्तस्मतस्य गणा वयं योगरूपाविशेषेण नमामो भक्तिसंयुता मया विघ्नात्मिका प्रोक्ता भ्रान्दिता बिम्बभावदः तां जयन्ति जना ईशा विघ्नराजस्य सेवया ब्रह्मभूतास्ते भवन्ति योगीन्द्रा गानपा स्मृताः अहं गणेशरूपो वैभिन्नं मायामयं मदं चित्तं पञ्चविधं प्रोक्तं सा बुद्धिर्विविधात्मिका तत्र ऐश्वर्यं च यत् प्रोक्तं सिद्धिः सा परमाद्भुता तत्र यद्बिम्बभावेन गणेशप्रतिष्ठति मायाभ्यां मोहितोऽत्यन्तं सर्वत्रा सौ विराजते बिम्बिभावं परित्यज्य गणेशस्यैव सेवया पञ्चधा चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् गणेशोकं यदा विप्रास्तदा कुत्र प्रवर्तते संयोगश्च तथा योगशान्तियोगं लभेतदः न तदा ता तस्मात् गणेशान्नात्र संशयः योगेन्द्रः शान्तियोगेन भविष्यति येददेवमदीयं मदीयं यद्गुह्यं ये ध्यानं प्रगीर्दितम् अदो गणेशदासोकं तं नमामि सदाद्विजाः द्विजाः महायोगी विररामस शङ्करः उच्छिन्नसंशया जादासनकाद्या वयं नृप विचरामो महीमेदां स्वर्गेशु स्वर्गेषु विवरेषु च योगमार्गेण योगी सा गाणपत्या स्वभावदः गणेशदर्शने जादलालसा वयमादराद तस्मिन् काले गणाधीश कश्यपश्यात्मजो भवद काशीराजो महाभोक्तो गाणपत्यपरायणः तस्य गेहे गदो देव स्वस्य वै कार्यसाधनाद दर्शनार्थं वयं तत्र गदा काश्यां महामदे प्रपश्यामो गणशं स्म ब्रह्मचारिस्वरूपिणं तं प्रणम्य राजन् स्थिता भक्त्या समन्विताः बालरूपधरं देवं स्म बालयोधगम् शनकादय ऊजुः नमो विनायकायैव कश्यपप्रियसूनवे अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु देर् गणेशाय सदा मायाधार चैदद्विवर्जितभक््यधीनाय वैतुभ्यं हिरम्बाय नमो नमः त्वं ब्रह्म शाश्वतं देवब्रह्मणां योगायोगादिभेदेन क्रीडसे नात्र संशयः आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा नादानादौ सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो सुरासुरमयः साक्षान्नरनागस्वरूपधृकजलस्तभेदेन शोभसे त्वं गजानन सर्वेभ्यो वर्जितस्त्वं वै मायाहीनस्वरूपधृकमाया मायिकरूपं त्वां कोजानादिगतिं परां कथं स्थुमो गणाधीशं योगाकारमयं सदा वेदान शम्भुमुख्याश्च शक्तास्तोदुं कदाचन वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः अस्माकं योगिनां धुण्ढे कुलदेवस्त्वमञ्चसा इत्युक्त्वा मौनमास्ताय नमामो दण्डवस्मतम् उवाचनो गणाधीशो भक्तिभावनियन्द्रितः विनायक उवाच भवद्भिर्यत्कृतं स्तोत्र मदीयं योगशान्तिदं भविष्यति महाभागा पठदे शृण्वदे सदा यं यम यमिच्छति तं तं वै स्तोत्रभाविदः भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः एवमुक्त्वा स्वयं बालश्चिक्रीडप्राकृतो यथा बालकैः सह योगात्मा काश्यपः पूर्ववन्नृप वयं काशीपदे तेनापि मानिताः सम्यक् भुक्त्वा यादाः पदे पुनः वेदत्ते कथितं सर्वं योगशान्तिमयं महद ज्ञानपूर्वं गणेशाख्यम् तं भजस्व नराधिपा मुग्गल उवाच एवमुक्त्वा विधिर्लोके ययुस्ते शनकादयः पृथुपुत्रेषु राज्यं स्वं विभज्य च वनं ययौ तत्र योगक्रमेणैव गणपत्यो बभूवः पत्न्या सह विनीतात्मा गणेशं ते लयं ययौ पृथुलकीर्तेश्च चरितं कथितं मृधोः शृणुयाद्या सर्वदं तस्य तद्भवेद् ॐ तत्सदि श्रीमदान्ध्ये महापुराणे महा द्वितीये खण्डे एकदन्तचरिते पञ्चविंशतितमोऽध्यायः ओम्